य ब्रह्मा ब्रह्मण उज्जहार प्राणे शिरकृत्तिवासा पिधाति ईशानदेवः सलहायर्दधातु तस्मै जुहोमिह मिषा कृतेन बिभ्राजमानः शरीरस्य मद्याद्रोचमान धर्मरुचर्य आगा समृत्यपाशा न पनद्य घोरा नियुषेन कृतमत्तु देवः ब्रह्म ज्योतिर्ब्रह्मभक्त्रेषु गर्भयमादतात् पुनरोपञ्जयन्तम् सुवर्णरम् भग्रहमर्घमज्यन्तमायुषे वर्धयामा कृतेन श्रियम् लक्ष्मी मौबलाम्बिकाङ्गाम् षष्टे यामिन्द्रसेनेत्युदाहोः राम्बि सर्वयान्यस्य यान्य सहस्र स्वामि स्वरूपा निरूपाः स सो नव सपदयस्य योज्यानि पुराणा आयुष्यदो न प्रमथन्तु वीरान् ते बहुधा ऋण मानः प्रजागम् वे एक पुरस्ताद्य इदम् बभू वयतो बभो बभुवनस्य गोपाः यमप्येति भवनगन्साम् पराय सनाह निर्घृतमिहायुनेत्तु देवः वसान् वृद्रा नान् मरुतोदसाद्यान् ब्रभान् गन्धर् राजश्च विद्रेगश्च विश्वा िष्याम् गिरसात सर्वाम् मृतम् हृत्वा श्वायिष्याम हयाम शश्वते वेष्ठात्पन्ना अन्तमः शर्म यच्छ सहन्त्या प्रथे धारा मधुस्वध वत्सन्दु क्रते अक्षिणाम्